पञ्चसप्ततितमः सर्गः दीर्घकालात् समुत्थाय सञ्ज्ञाम् लब्ध्वा सवीर्यवान् नेत्राभ्यामश्रुपूर्णाभ्याम् दीनामुद्वीक्ष्य मातरम् सोमात्यमध्ये भरतो जननीमभ्यकुत्सयत् राज्यम् न जातु मन्त्रयेनापि मातरम् अभिषेकम् न जानामि योऽभूद्राज्ञा समीक्षितः विप्रकृष्टे ह्यहम् देशे शत्रुघ्नसहितो भवम् वनवासम् न जानामि रामस्याहम् महात्मनः विवासनम् च सौमित्रे सीतायाश्च यथाभवत् तथैव क्रोशतस्तस्य भरतस्य महात्मनः कौसल्या शब्दमाज्ञाय सुमित्राम् चेदमब्रवीत् आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः तमहम् प्रतस्थे भरतो यत्र विचेतना स प्रतस्थे भरतो येन कौसल्याय निवेशनम् ततः शत्रुघ्नभरतो कौसल्याम् प्रेक्ष्य दुःखितौ पर्यश्वचेताम् दुःखार्ताम् पतिताम् नष्टचेतना रुदन्तौ रुदती दुःखात् समेत्यार्या मनस्विनी भरतम् प्रत्युवाचेदम् कौसल्या भृशदुःखिता इदम् ते राज्यकामस्य राज्यम् प्राप्तमकण्टकम् सम्प्राप्तम् बत कैकेय्या शीघ्रम् क्रूरेण कर्मणा प्रस्थाप्य चीरवसनम् पुत्रम् मे न वासिनम् कैकेयीकम् गुणम् तत्र पश्यति क्रूरदर्शिनी क्षिप्रम् मामपि कैकेयी प्रस्थापयितुमर्हति हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः अथवा स्वयमेवाहम् सुमित्रानुचरा सुखम् अग्निहोत्रम् पुरस्कृत्य प्रस्थास्य यत्र राघवः कामम् वा स्वयमेवाद्य तत्र माम् नेतुमर्हसि यत्रासौ पुरुषव्याघ्रस्तप्यते मे सुतस्तपः इदम् हृदमविस्तीर्णम् धनधान्यसमाचितम् हस्त्यश्वरथ सम्पूर्णम् राज्यम् तया इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्त्सितो विव्यथे भरतोऽतीव व्रणे तुद्येव सूचिना पपातचरणो तस्यास्तदा सम्भ्रान्तचेतनः विलप्य बहुधा सञ्ज्ञो लब्ध्वसञ्ज्ञस्तदा भवत् एवम् विलपमानाम् ताम् प्राञ्जलिर्भरतस्तदा कौसल्याम् प्रत्युवाचेदम् शोकैर्बहुभिरावृता आर्ये कस्मादजानन्तम् गर्भसे मामकल्पषम् विपुलाम् च मम प्रीतिम् स्थिताम् जानासि राघवे कृतशास्त्रानुगा बुद्धिर्मा भूत्तस्य कदाचन सत्यसन्धः सताम् श्रेष्ठो यस्यार्योऽनुमते गतः रैष्यम् पापीयसाम् यातु सूर्यम् च प्रतिमेहतु हम् पादेन गा स्वप्ता यस्यार्योऽनुमते गतः कारयित्वा महत्कर्मभर्ता भृत्यमनर्थकम् अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः परिपालयमानस्य राज्ञो भूतानि पुत्रवत् ततस्त्वदृश्यताम् पापम् यस्यार्योऽनुमते गतः बलिषड्भागमुद्धृत्य नृपस्यारक्षितः प्रजाः अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः संश्रुत्य च तपस्विभ्यः सत्रे वैयज्ञदक्षिणा ताम् चापलताम् पापम् यस्यार्योऽनुमते गतः हस्त्यश्वरथसम्बाधे युद्धे शस्त्रसमाकुले मा स्म कार्षीत्सताम् धर्मम् यस्यार्योऽनुमते गतः उपदिष्टम् सुसूक्ष्मार्थम् शास्त्रम् यत्नेन धीमता स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः वाचतम् व्यूढबाह्वंसम् चन्द्रभास्करतेजसम् द्राक्षी द्राज्यस्थमासीनम् यस्यार्योऽनुमते गतः पायसम् प्रसरम् छागम् गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः गाश्च स्पृशतु पादेन गुरून्परिवदेत च मित्रे दृह्येत सोऽर्थम् यस्यार्योऽनुमते गतः विश्वासात्कथितम् किञ्चित्परिवादम् मिथः क्वचित् विवृणोतु स दुष्टात्मा यस्यार्योऽनुमते गतः अकर्ता चाकृतज्ञश्च त्यक्तात्मा निरपत्रपः लोके भवतु विद्विष्टो यस्यार्योऽनुमते गतः पुत्रैर्दासैश्च भृत्यैश्च स्वगृहे परिवारितः स एको मृष्टमश्नातु अप्राप्य सदृशान् दाराननपत्यः प्रमीयता अनवाप्यक्रियाम् धर्म्याम् यस्यार्योऽनुमते गतः मात्मनः सन्ततिन्द्राक्षी स्वेषु दारेषु दुःखितः आयः समग्रमप्राप्य यस्या योऽनुमते गतः राजस्त्रीबालवृद्धानाम् वधे यत्पापमुच्यते भृत्यत्यागे च यत्पापम् तत्पापम् प्रतिपद्यत लाक्षया मधुमांसेन लोहेन च विषेण च सदैव विभृयाद्भृत्यान् यस्यार्योऽनुमते गतः सङ्ग्रामे समुपोढे च शकुपक्षभयङ्करे पलायमानो वध्येत यस्यार्योऽनुमते गतः कपालपाणिः पृथिवीमठताम् चीरसंवृतः भिक्षमाणो यथोन्मत्तो यस्यार्योऽनुमते गतः मद्यप्रसक्तो भवतु स्त्रीष्वर्क्षेषु च नित्यशः कामक्रोधाभिभूतश्च यस्यार्योऽनुमते गतः मास्य धर्मे मनोभूयाद धर्मम् सनिषेवताम् अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः सञ्चितान्यस्य वित्तानि विविधानि सहस्रशः दस्युभिर्विप्रलुप्यन्ताम् यस्यार्योऽनुमते गतः उभे सन्ध्येशयानस्य यत्पापम् परिकल्प्यते तच्च पापम् भवेत्तस्य यस्य आर्योऽनुमते गतः यदग्निदायके पापम् यत्पापम् गुरुतल्पके मित्रद्रोहे च यत्पापम् तत्पापम् प्रतिपद्यता देवतानाम् पितॄणाम् च मातापित्रोस्तथैव च मा स्म कार्षीत्सशुश्रूषाम् यस्यार्योऽनुमते गतः सताम् लोकात् सताम् कीर्त्यात् सज्जुष्टात् कर्मणस्तथा पश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठता दीर्घबाहुर्महावक्षा यस्यार्योऽनुमते गतः बहुभृत्यो दरिद्रश्च ज्वररोगसमन्वितः समायात्सतम् क्लेशम् यस्यार्योऽनुमते गतः आशामाशम् समानानाम् दीनानामूर्ध्वचक्षुषा अर्थिनाम् विदथाम् कुर्याद्यस्यार्योऽनुमते गतः मायजारमताम् नित्यम् पुरुषः पिशुनो शुचिः राज्ञा भीतस्त्वधर्मात्मा यस्यार्योऽनुमते गतः ऋतुस्नाताम् सतीम् भार्या ऋतुकालानुरोधिनीम् अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः विप्रलुप्तप्रजातस्य दुष्कृतम् ब्राह्मणस्य यत् तदेतत्प्रतिपद्येत यस्यार्योऽनुमते गतः ब्राह्मणायोद्यताम् पूजाम् विहन्तु कलुषेन्द्रियः बालवत्साम् च गान्दोग्धु यस्यार्योऽनुमते गतः धर्मदारान् परित्यज्य परदारान्निषेवताम् त्यक्तधर्मरतिर्मूढो यस्यार्योनुमते गतः पानीयदूषके पापम् तथैव विषदायके यत्तदेकः स लभताम् यस्यार्योऽनुमते गतः तृशार्तम् सति पानीये विप्रलम्भेन योजयन् यत्पापम् लभते तत्स्याद्यस्यार्योऽनुमते गतः भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः तेन पापेन युज्येत यस्यार्योऽनुमते गतः विहीनाम् पतिपुत्राभ्याम् कौसल्याम् पार्थिवात्मजः तदादम् शपथैः कष्टैः शपमानमचेतनम् भरतम् शोकसन्तप्तम् कौसल्यावाक्यमब्रवीत् मम दुःखमिदम् पुत्रभूयः समुपजायते शपथैः शपमानो हि प्राणानुकरुणसि मे दिष्ट्या चलितो धर्मादात्मा ते सह इत्युक्त्वा चाङ्कमानीय भरतम् भ्रातृवत्सलम् परिष्वज्य महाबाहुम् रुरोदभृशदुःखिता एवम् विलपमानस्य दुःखार्तस्य महात्मनः मोहाच्चशोकसंरम्भाद्बूवलुलितम् मनः लालप्यमानस्य विचेतनस्य प्रणष्टबुद्धेः पतितस्य भूमौ मुहुर्मुहुर्श्वसत दीर्घंसा तस् शोक न जगाम रात्रि इशे श्रीमद्मा आदि का्योध्या पंच सप्त सर्ग